बजरे लोक गुरु मनुजा बजरे लोक गुर बजरे What the के चिन्तन चिन्तन बजरे गुरु बजरे गुरु बजरे दण्डकमण्डल मण्डिता पाणि दण्डक मण्डलो मण्डिता पाणि दण्डक ी तीर्थे किङ्कर भारती तीर्थारती तीर्थ बजरे प्रो गुरु हे मनु जया बजरे โลก का कोई के मायनो जा वगैरह लोके